श्रीहरये नमः अथ अष्टादशोऽध्यायः श्रीशुक उवाच धर्मसुतस्तत्कुलपथयः पुरुषा भद्रा स्ववर्षे साक्षाद्भगवतो वासुदेवस्य प्रियां धनुं धर्ममयीं हयशीर्षाभितानां परमेण समाधिनां सन्निधाम् अभिगृणन्त उभधावन्ति भत्रश्रवसवूचू ॐ नमो भगवते धर्माय आत्मविशोधनाय न मिति अहो विचित्रं भगवद्विचेष्टितं गन्दं जनोऽयं हि मिषन्न पश्यते ध्यायन्न सत्यर्हि विकर्म सेवितं निर्हृत्य पुत्रं पितरं जिजीविषती वदन्ति विश्वं कवयस्मनश्वरं पश्यन्ति च अध्यात्मविदो विपश्चितः तथापि मुख्यन्ति धाज मायया सुविस्मितम् कृत्यस्मितम् विश्वोद्भवस्थान निरोधकर्म ते ह्यकर्तुरी घृतम् अप्यभावृतः युक्तम् न चित्रम् त्वयि कार्यकारेण सर्वात्मनि व्यतिरिक्ते च वस्तुतः वेदान् युगान्ते तमसा तिरस्कृतान्न सा तलाद्यो ऋतुरङ्गविग्रहा प्रत्यादते वै कवये याचते तस्मै नमस्ते वितदेहिताय इति हरिवर्षे चापि भगवान् हरिहरिरूपेण आस्ते तत्रूपग्रहणनिमित्तम् उत्तरत्राभिधास्ये तद्दयितं रूपं महापुरुष गुणभाजनो महाभागवतो दैत्यधानवकुलतीर्तीकर्णशीलाचरितः प्रह्लातो व्यवधान अनन्यभक्तियोगेन सख तद्वर्षपुरुषैः उपास्ते गिदं चोदाहरति ॐ नमो भगवते नरसिंहाय नमस्तेजस्तेजसे आविराविर्भव वज्रनखवज्रदंष्टकर्मासयान्रन्तय रन्तय तमोग्रसग्रसवों स्वाहा अभयमभयमात्मनि भूयिष्ठ ॐ श्रौ स्वस्त्यस्तु विः स्वस्य कलः प्रसीदता ध्यायन्तु भूतानि सिभं मिथो धिया मनश्च भद् ब्रह्मजदात् अधोक्षजे आवेश्यतां नो मतिरप्यहैतुकी माघारधार आत्मजवित्तबन्धुषो सङ्गोयति स्याद्भगवत्प्रियेषु नः यः प्राणवृत्या आत्मवान् सिध्यति यधूरान्त यत्सङ्गलब्धं निजवीर्यवैभवं तीर्थं बुहुः संस्पृशदां हि मानसं हरत्यजोऽन्तः श्रुतिभिर्गतो गजं को वै न सेवेतमुगुन्तविक्रमं यस्यास्ति भक्तिर्भकव्यति अकिञ्चन सर्वैर्गुणैस्तत्र समासते सुराः ह रावभक्तस्य कुतो महद्गुणा मनोरथेना सधि धावतो बहिः हिरिर्हि साक्षाद्भगवान् शरीरिणा आत्मा झषाणमिवतो यमीप्सितं हित्वा महांस्तं, यदि सज्जते गृहे तथामह त्वं वयसाधम्पदीनां तस्मात्र जोराकविषाधमन्यु मानस्प्रकापयथैन्याधिमूलं हित्वा गृहं संश्रुतिचक्रवालं नृसिंहपादं भजता कुतो भयमिति केतुमालेऽपि भगवान् कामदेवस्वरूपेण लक्ष्म्याः प्रियर्चिकीष्या प्रजापते दुहितॄणां पुत्राणां तत्त्वर्षपतीनाम् पुरुषायुष अहोरात्र परिसङ्ख्या नानाम् यां गर्भा महा महापुरुषमहास्त्र तेजसो वेजितमनसां वित्वस्ताव्यसवत् संवत्सरान्ते विनिपतन्ति अतीव सुललितगतिविलास विलसितरुचिरं हासले सावलोकलीलया किञ्चिद्दुद्धम्बितसृन्धर भ्रोमण्डलसुभक वदनारविन्दश्रिया रमां रमयन् इन्द्रियाणि रमयते रूपम् परमसमातियोग्येन रमादेवी संवत्सरस्य रात्रिषु उपेथो धृपे उपेतोहः सुत्पर्दुभिर् उपास्ते इतं चबुताहरति ओं ह्रां ह्रीं ह्रूं ॐ नमो भगवते ऋषिकेशाय विलक्षितात्मने आहूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोटसकलाय छन्दोमवाय अन्नमयाय अमृतमयाय सर्वमयाय सखसे भलाय कान्ताय कामाय नमस्ते उभयत्र स्त्रीयो स्त्री योव्रतैस्त्वारिषिकेश्वरम् स्वेतो ह्यराध्यलोके पदिमासा सतेऽन्यं दाशां न देवै परिपान्त्यपद्यम् प्रियम् धनायूं क्षीयतो स्वतन्त्राः स वै पतिष्यातकुतो भयः स्वयं समन्तत पाति भयादुरम् जनम् स भयम् नैवात्मलाभात् अधिमन्यते परं या तस्य ते निकामयेत्सा किल पठा तदेव रासीप्सितमीप्सिदोर्चितो यद्भग्नयाञ्च मत्प्राप्तये अजे सुरा सुरातयस्तप्यन्तग्रम् तप ऐन्त्रियेदियः ऋतेभवत्पादपरायणान्तमां विद्यन्त्यहन्त्वधृतया यतो जितः स त्वं ममापि वन्दितं कराम्बुजं यत्त्वदथायि सात्वतां विपर्षि मां लक्ष्मवरेण्यमायया कईश्वरस्येहितमूहितुं विभुरिति रङ्ग्यके च भगवतः अवताररूपं तद्वर्षपुरुषस्य मनो प्राक् प्रदर्शितं स इदानीमपि भक्तियोगेन आराधयती धं चोदाहरति ॐ नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौ जलसे सगसे भलाय महामत्स्याय न मयितिम् अन्तर्बहिश्चा किल लोकपालकये अदृष्टरूपो विचरशुरुस्वनः स यगितं वशेन नाम्नायता दारुमयीं नरस्त्रिहं यं लोकपालाखिल मत्सरज्वर हित्वा यतन्तोऽपि पृथक् समेत्य च पातुं न सेको द्विपधश्चतुष्पथः सरीसृपं दृश्यते भवान् युगान्तार्णभ ऊर्मिमालिनी शोणीमिमाम् ओषति विरुधां निधिं मया सहोरुक्रमते जवोजसा तस्मै जगत्प्राणगणात्मने न मयिति हिरण्मयेऽपि भगवान् निवसति कूर्मतनुं विप्राणस्तस्य प्रियतमां तनुमर्यमासखवर्षपुरुषैर्पितृगणातिपते उपधावति मन्त्रमिमं चानुजपती ॐ नमो भगवते अकुपाराय सर्वसत्त्वगुणविशेषणाय अनुपलक्षितस्नानाय नमो वर्ष्मणे नमो पूम्ने नमो नमो वस्तानाय नमस्ते यत्रूपमेतन्निजमायार्पितम् अर्थस्वरूपं बहुरूपरूपितं सङ्ख्यान यस्यान्त्ययतो तस्मै नमस्ते व्यपदेशरूपिणे जरायुजं श्वेतझमण्टधोत्मिधं सराचरं देवर्षि पितृभूतमैन्द्रियं द्यौखं क्षितिः शैलसरित्समुद्र द्वीपग्रहर्षेद्यभितेययेकः यस्मिन् सङ्ख्येयविशेषनामरूपाकृतौ कविभिः कल्पितेयं संख्याय या तत्त्वदृशापनीयते तस्मै नमस्साङ्ख्यनिदर्शनाय ते इति उत्तरेषु च कुरुषु भगवान् यज्ञपुरुषकृतवराहरूप आस्ते तं तु देवि हैषाभूंसकुरुभे अस्खलितभक्तियोगेन उभधावति इमां च परमा उपनिषदम् आवर्तयति ॐ नमो भगवते मन्त्रतत्त्वलिङ्गाय यज्ञक्रतवे महाध्वरावयवाय महापुरुषाय नमः त्रियुगाय नमस्ते यस्य स्वरूपं कवयो विपश्चितो गुणेषु मत्नन्ति मत् नामनसादितृक्षगो गूटं क्रियार्थैर्नमगीरितात्मने द्रव्यक्रिया हेत्वयने स कर्तुभिर्माय गुणैर्वस्तु निरीक्षितात्मने अन्वीषयाङ्घातिशयात्मबुद्धिभिर्निरस्तमायाकृतये नमो नमः करोति विश्वस्ति संयमो दयं यस्येप्सिधं नेप्सितमीक्षि दुर्गुणैर्मायायथायो प्रमते तथाश्रयं क्राणो नमस्ते गुणकर्मसाक्षिणे प्रमत्यदैत्यं प्रतिवारणं मृते यो मां रसाय जगदातिशुकरः कृत्वा ग्रधंष्टे निरगात् उधन्वतः क्रीटन् यिवे भ प्रणदास्मितं विभूमिति श्रीमद्भागवते महापुराणे पञ्चमस्कन्ते भुवनकोशवर्णनं नाम अष्टादशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द